अथैकचत्वारिंशः सर्गः तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ आर्तशब्दो हि सञ्जज्ञे स्त्रीणामन्तः महान् अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः योगतिः चासीत् सनाथः वनुगच्छति न क्रुध्यत्यभिशस्तोऽपि क्रोधनीया निवर्जयन् क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्व गच्छति कौसल्यायाम् महातेजा मातरि वर्तते तथा यो वर्तते स्मासु महात्मा क्वनुगच्छति कैकेय्या क्लिश्यमानेन राज्ञा सञ्चोदितो वनम् परित्राता जनस्यास्य अहो निश्चेतनो राजा जीवलोकस्य संक्षयम् धर्म्यम् सत्यव्रतं रामम् वनवासे प्रवत्स्यति इति सर्वा महिष्यस्ता विवत्सा इवधे नवः रुरुदश्चैव दुःखार्ताः सस्वरम् च विचुक्रुशुः सतमन्तः पुरे घोरमार्तशब्दम् महीपतिः पुत्रशोकाभिसन्तप्तः श्रुत्वा चासीत् सुदुःखितः अकुर्वन्न प्रजाः कार्यम् सूर्यश्चान्तरधीयत व्यसृजन् कवलान्नागा गावो वत्सान्न पाययन् पुत्रम् प्रथमजम् लब्ध्वा जननीनाभ्यनन्दत त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि दारुणाः सोममभ्येत्य ग्रहाः विशाखाश्च स धूमाश्च नभसि प्रचकाशिरे कालिकानिलवेगेन महोदधिरिवोत्थितः रामे वनम् प्रव्रजिते नगरम् प्रचचालत दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः न ना ग्रहो नापि ना किञ्चन अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत् आहारे वा विहारे वा न कश्चिदकरोऽन्मनः शोकपर्यायसन्तप्तः राजमार्गगतो जनः न लभ्यते कश्चित् न लोकं सर्वं सर्वम् जगत जगत् अनर्थिनः भर्तारो भ्रातरस्तथा सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन् ये रामस्य सुहृदः सर्वे ते मूढचेतसः शोकभारेन चाक्रान्ता शयनम् नैव भेजिरे ततस्त्वयोऽध्यारहिता महात्मना पुरन्दरेणेव मही सपर्वता चालघोरम्भयशोकदीपिता सनागयोधाश्वगणाननाद च इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकचत्वारिंशः सर्गः